ब्रह्माण पूर्वभाग्या टेन् महादेव विभूति वर्णनम ऋषि अस्के या नो कहदुर्भ महात्म महादेव से साधकृषि उच उत्पत्तिरादिसर्गस्य मया प्रोक्ता समासदः विस्तरेण ना प्रवक्ष्यामि नामानि तनुभिः सह पत्नीषु जनयामास महादेवः सुधान् बहून् कल्पादावात्मनस्तुल्यं सुदमध्यायतप्रभुः प्रादुरासीत्तदोऽङ्केस्य कुमारो नीललोहितः। रुरोदसुस्वरं घोरं निर्दहन्निबतेजसा दृष्ट्वा रुदन्तं सहसा कुमारं नीललोहितम् किं रोदिषि कुमारेदि ब्रह्मात्तं प्रत्यभाषद सौब्रवी देहि मे नाम प्रथमं त्वं पितामः रुद्रस्त्वं देवनामासि स इत्युक्तो रुदत् पुनः किं रोदिषि कुमारेदि ब्रह्मात्तं प्रत्यभाषद नाम देहि द्वितीयं मे इत्युवाच स्वयम्भुवं भवस्त्वं देवनाम्नासि इत्युक्त सो रुदत्पुनः किं रोदिषीदितं ब्रह्मा रुदन्तं प्रत्युवाचः तृतीयं देहि मे नाम इत्युक्त सौब्रवीत्पुनः सर्वस्त्वं देवनामासित्युक्तसौ रुदत्पुनः किं रोदिषीदितं ब्रह्मा रुदन्तं प्रत्युवाचः देहि मे नाम इत्युक्तस्वब्रवीत्पुनः ईशानो देवनाम्नासि इत्युक्तसौ रुदत् पुनः किं रोदिषीदितं ब्रह्मा रुदन्तं पुनरब्रवीद पञ्चमं नाम देहीति प्रत्युवाचस्वयं भुवम् पशूनां त्वं पतिर्देव इत्युक्तः सोरुदत्पुनः किं रोदिषीदि तं ब्रह्मा रुदन्तं पुनरब्रवीद षष्ठं वै देहि मे नाम इत्युक्तः प्रत्युवाच भीमस्त्वं देवनामासि इत्युक्तः सोरुदत् पुनः किं रोदिषीदि ब्रह्मा रुदन्तं पुनरब्रवीद सप्तमं देहि मे नाम युत्युक्तः प्रत्युवाचः उग्रस्त्वं देवनाम्नासि युत्युक्तः सोरुदत्पुनः तं रुदन्तं कुमारं तु मा रोदीरिति सोऽब्रवीद सो नाम देहि विभो पुनः महादेव महादेवनामासि इत्युक्तो विररामः महा। लब्ध्वा नामानि चैदानि ब्रह्माणं नीललोहितः प्रोभाज नाम्नामेतेषां स्थानानि प्रदिशेदिह तदो विसृष्टास्तनव येषां नाम्ना स्वयम्भुव सूर्यो जलं महिवायोर्वकाशमेव च दीक्षिता ब्राह्मणश्चन्द्र इत्येवं तिष्ठथातनुः तेषु पूज्यश्च वन्द्यश्च नमस्कार्यश्च यत्नतः प्रोवाच तं पुनर्ब्रह्माकुमारं नीललोकितं यदुक्तं ते मया पूर्वं नाम विभो तस्यादित्यतनुर्नाम्नः प्रथमा प्रथमस्यते इत्युक्ते तस्य यत्ते जश्चक्षुस्त्वासीत् प्रकाशकं विवेश तत्तदादित्यं तस्मादृद्रो ह्यसौ स्मृतः उद्यतमस्तं यन्तं च वार्जयेद्दर्शने रविम् शश्वच्च जायते यस्माच्चश्वत्संतिष्ठदे तु तुयद तस्मात् सूर्यं न वीक्षेद आयुष्कामशुचिः सदा अधीतानागतं रुद्रं विप्राक्ष्याप्याययन्ति यद उभे सन्ध्येक्षुपासीना गृह्णन्तः सामऋग्यजुः उद्यन् स तिष्ठदे ऋक्षु मध्याह्ने च यजुष्वथ सामस्वथा पराह्नेतु रुद्रसंविशदिक्रमाद तस्माद्भवेन्नाभ्युदितो बाह्यस्तमित एव च न मेहेद मेहेधसर्ववस्तं कथञ्चन एवं युक्तान् द्विजान् देवो रुद्रस्तान्न हिनस्ति वै तदोब्रवीत् पुनर्ब्रह्मात् तन्देवं नीलोहितं द्वितीयं नाम ध्येयं ते मया प्रोक्तं भवेदि यद् यदस्यापो द्वितीया धे तनुर्नाम्ना भवद्विधि इत्युक्रे त्वथ तस्यास्य रसात्मकं विवेश तत्तथा तस्मादापो भव स्मृतः यस्माद्भवन्ति भूतानि ताभ्यस्ता भावयन्ति च भवनात् भावनाच्चैव भूतानामुच्यते भावना भवः तस्मान्मूत्रं पुरीशं च नाप्सु कुर्वीदकर्हिचिद न ना निष्ठीवेन्नावगाहेन्नैव गच्छेच्च मैथुनं न चैतापरिचक्षीदवहन्त्यो वा स्थिता अपि मैध्यां मेध्यास्त्वपा मेधास्तनवो मुनिभिः स्मृताः विवर्णरसगन्धाश्च वर्ग्या अल्पाश्च सर्वशः अपां योनिसमुद्रस्तु तस्मात् तं कामयन्ति ताः मध्याश्चैवामृता ह्यापो भवन्ति प्राप्य सागरं तस्मादपो न रुन्धीर समुद्रं कामयन्तिताः नहि नस्ति भवो देवो य एवं ह्यप्सु वर्तते ततो कुमारं नीलोकितं सर्वेऽधि यतृतीयं ते नाम प्रोक्तं मया विभो तस्य भूमिस्तृतीयस्य तनुर्नाम्ना भवद्वियं इत्युक्ते यत् स्थिरं तस्य शरीरे ह्यस्ति संनिधं विवेश तत्तदा भूम्यं यस्मात्सा सर्व शर्व उच्यते तस्मात्कृष्टेन गुर्वीद पुरीषं मूत्रमेव च न तथा मार्गे स्वच्छायां न मेघयेद् शिरःप्रावृत्यगुर्वीद अन्तर्धाय तृणैर्महीं एवं यो वर्तते भूमौ सर्वस्तं न हिनस्ति वै तदोब्रवीत्पुनर्ब्रह्मा कुमारं नीललोहितम् ईशानेति चतुर्थते नाम प्रोक्तं मयेहयत् चतुर्थस्य चतुर्थी वायुर्नाम्ना तनुस्तव युत्युक्ते यच्छरीरस्थं पञ्चथा प्राणसंज्ञतस्य तद्वायुमीशानस्तेन मारुतः तस्मान्नयिनं परिवदेत्प्रवां तं वायुमीश्वरम् यज्ञैर्व्यवहरन्त्येनं ये वै परिचरन्ति च एवं युक्तं महेशानो नैव देवो हिनस्थितम् ततोब्रवीत्पुनर्ब्रह्मा तं देवं धूम्रमीश्वरं नाम यद्वै पशुपतिरित्युक्तं पञ्चमं मया तनो नाम्नाग्निरस्तु ते युत्युक्ते यच्छरीरस्तं तेजस्तस्योष्णसंदं विवेश तत्तदाक्ष्यग्निं तस्मात्पशुपतिस्तु सः यस्मादग्निः पशुश्चासीद्यस्मात्पादि पशूंश्च सः तस्मात्पशुपतेस्तस्य तनुरग्निर्निरुच्यते तस्मादमेध्यं न देहेन्न च पादौ प्रदापयेद् अधस्तान्नोपदध्या च न च इनमतिलङ्घयेद् नैनं पशुपतिर्देव एवं युक्तं हिनस्ति वै ततो ब्रवीत् पुनर्ब्रह्मा तं देवं श्वेदपिङ्गलम् षष्ठं नाम मया प्रोक्तं तव भीमेदि यत्प्रभो आकाशं तस्य नाम्नस्तु तनुःषष्ठीभवत्विधि इत्युक्ते सुषिरं तस्य शरीरस्थमभुचयत् विवेश तत्तदाकाशं तस्माद् भीमस्य सा यदा काशे स्मृदो देवस्तस्मान्ना संवृध क्वचित् कुर्यान्मूत्रं पुरीशं वा न भुञ्जीदपिबेन्न वा वापि न चरे दुच्छिष्टानि न हि नस्ति च दन्देवो यो भीमेह्येवमाचरेद् ततोब्रवीत् पुनर्ब्रह्मात्तं देवं सबलं प्रभुं सप्तमं यन्मया प्रोक्तं नामोऽग्रेधि तव प्रभो तस्य नाम्नस्तनुस्तुभ्यं द्विजो भवदि दीक्षितः एवमुक्ते तु यत्तस्य चैतन्यं वै शरीरगं विवेश दीक्षितं तद्वै ब्राह्मणं सोमयाजिनम् तावत्कालं स्मृतो विप्र उग्रुदे वस्तु दीक्षितः नेमं परिवदे नाश्रीलं चास्य कीर्तयेद् ते हरं त्यस्य पाप्मानं ये परिवदन्ति तं एवं युक्तान् द्विजानुग्रो देवस्तान्न हि नस्ति तं देवं भास्करद्वितीम् अष्टमं नामयत्प्रोक्तं महादेवेदि तेमया मया तस्य नाम्नोऽष्टमस्यास्तु तनुस्तुभ्यं तु चन्द्रमाह इत्युक्ते यन्मनस्तस्य सङ्कल्पकमभूत्प्रभोः विवेश तच्चन्द्रमसं महादेवस्तदशशी तस्माद्विभाव्यदेह्येष महादेवस्तु चन्द्रमाः अमावास्यां न वैच्छिन्त्याद्वृक्षगुल्मौषधीर्द्विजः महादेवः स्मृतः सोमस्तस्यात्मा ह्यौषधीगणः एवं यो वर्तते च सदा पर्वणि पर्वणि नखं तितं महादेवो य एवं वेद तं गोपायदि दिवादित्यः प्रजा न क्तं तु चन्द्रमाः एकरात्रौ समेयादां सूर्याचन्द्रमसावुभौ अमावास्यानिशायां तु तस्यां युक्तः सदा भवेद् रुद्राविष्टं सर्वमिदं तनुभिर्नामभिश्च एकाकी यश्चरत्येष सूर्योत्सौ रुद्र उच्यते सूर्यस्य यत्प्रकाशेन वीक्षन्ते चक्षुषा प्रजाः मुक्तात्मा संस्थित रुद्र पिब्दस्थि अदयपीय से नादि काम्यनुरंबूद दवचये ये प्रजा सर्वा स्री नेजसा पार्थिवी सा तनुस्त साध्वी धारयते प्रजाः या च स्थिता शरीरेषु बुधानां प्राणवृत्तिभिः वादात्मिकादु चैषानि सा प्राणप्राणिनामिह पीदाशितानि पचति बुधानां जठरेष्विह तनुः पाशुपति पाचकसोऽग्निरुच्यते यानीह शुषिराणि स्युर्देहेष्वं तर्गतानि वै वायोसञ्चरणार्थानि भीमा सा प्रोच्यते तनुः तनुरुग्रात्मिका साधु तेनो ग्रो दीक्षितस्मृतः यत्तु सङ्कल्पकं तस्य प्रजास्विः समास्थितम् सा तनुर्मानसि नवो नवो यो भवति जायमानः पुनः पुनः पियदेसौ प्यबोध्य दुभस महादेव मृतात्मा स चंद्रमा अमयस्मृता तस्या प्रथमा ननु रौद्री प्रकर्ति पत्नी सुवर्चला तुत्रश्चा से शन भा दिदीया दो ना तनुस्मृता तस्या धात्री स्मृता पत्नी पुत्रश्च उशना स्मृतः सर्वस्य या तृतीयस्य भूमिस्तनुस्मृता तस्या पत्नी विकेशीदु पुत्रोऽस्याङ्गारकस्मृतः ईशानस्य चतुर्धस्य नाम्ना वादस्तनुस्तूया तस्याः पत्नी शिवा नाम पुत्रश्चास्या मनोजवः अविज्ञातगतिश्चैव द्वौ पुत्रौ चानिलस्यदु नाम्ना पशुपतिर्यादु तनुरग्निर्द्विजयस्मृता तस्या पत्नीस्मृता स्वाहा स्कन्धस्तस्या सुदस्मृतः नाम्ना षष्ठस्य याभिमा तनुराकाशमुच्यते दिशपत्स्मृत स्वर्गचापे सुधस्मृता उग्र तनुसमीया दीक्षिब्राह्मणस्मृता दीक्षापत्नी स्मृता तस् सन्ता पुत्र उच्यमुया चंद्रमा स्मृतः तर वैरोपत्नी पुत्रस्त बुध स्मृत स्तनवस्त नाम तासु वंद्यो नमस्ना प्रदिनाम वै सूर्ये सूरव्या तथा वाया न्य दीक्षि भक्रैस्तथा चन्द्रमसि भक्त्या वन्द्यस्तु नामभिः एवं यो वेत्ति तं देवं तनुभिर्नामभिश्च प्रजावाने दिशायुज्यमीश्वरस्य भवस्य सह इत्येतद्वो मया प्रोक्तं गुह्यं भीमस्य यद्य शन्नोस्तु द्युपदे चदुष्पदे। च चतुष्पदे एतत् प्रोक्तमिदानीं च तनूनां नामभिस्सह महादेवस्य देवस्य भृगोस्तु शृणुतप्रजाः इति महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे महादेव विभूतिवर्णनन्नाम दशमोऽध्यायः ओ